संशितव्रतयतिप्रपन्नाय नमः ॐ प्राणायामपरप्रणयने नमः यज्ञगम्यब्रह्मणे नमः ॐ अयज्ञगर्हिणे नमः यज्ञनाशंसिने नमः ज्ञानयज्ञपराय नमः ॐ ज्ञानसम्पातिसर्वकर्मणे नमः पायप्रदर्शकाय नमः ॐ तत्त्वदर्शिने नमः ॐ ज्ञानविधूतमोहाय नमः ॐ ब्रह्मात्मदृष्टसर्वभूताय नमः ॐ ज्ञानप्लवसन्तीर्णसर्वपापाय नमः ॐ ज्ञानाग्दिग्दग्धकर्मणे नमः ॐ योगसंसिद्धाय नमः ॐ पवित्रतमज्ञानवेद्याय नमः ॐ ज्ञानादिगतपरमशमायाय नमः ॐ श्रद्धासंयमवेद्याय नमः ॐ संशयात्मगर्हिणे नमः ॐ योगसंन्यस्तकर्मणे नमः ॐ ज्ञानसञ्चिन्नसंशयाय नमः ॐ आत्मवते नमः ॐ कर्मानिबद्धाय नमः ॐ संशयच्छेदिने नमः ॐ योगाचार्याय नमः ॐ भारतोत्थापकाय नमः ॐ कर्मयोगप्रियाय नमः ॐ योगाय नमः ॐ योगज्ञाशंसिने नमः ॐ योगगम्यसन्न्यासविदे नमः शुद्धात्मने नमः ॐ वियुतात्मने नमः ॐ सर्वभूतात्मने नमः ॐ कर्मलेपरहिताय नमः ॐकर्त्रात्मविदे नमः ॐ इन्द्रियार्थवृत्तिसाक्षिणे नमः ॐ त्यक्तसङ्गहितकर्मणे नमः ॐ पापालिप्ताय नमः ॐ असङ्गकर्मशुद्धात्मने नमः ॐ शान्तिनिष्ठापराय नमः ॐ सन्न्यस्तसर्वकर्मणे नमः ॐ अकुर्वते नमः ॐ अकारयते नमः ॐ देहिने नमः ॐ सर्वत्रसमदर्शिने नमः ॐ साम्यस्थितमानसे नमः ॐ जुतसर्गाय नमः ॐ ब्रह्मनिष्ठाय नमः ॐ प्रियप्राप्त्यप्रहृष्टाय नमः ॐ अप्रियप्राप्त्यनुर्विघ्नाय नमः स्थिरबुद्धये नमः ॐ असमुाय नमः ॐ ब्रह्मविदे नमः ॐ स्वभावप्रवर्तितकर्मफलाय नमः ॐ अनात्तसुकृतदुष्कृताय नमः ॐ मुग्धजन्तुविकल्पिताय नमः ॐ ज्ञाननाशिताज्ञानात्मप्रकाराय नमः ॐ तद्बुद्धिगम्याय नमः ॐ तदात्मगम्याय नमः ॐ तत्परायणगम्याय नमः ॐ ज्ञाननिर्धूतकल्मषाय नमः ॐ ह्यस्पर्शासक्तात्मनय नमः ॐ आत्मविदे नमः ॐ ब्रह्मयोगयुक्तात्मने नमः ॐ अक्षय्यसुखविदे नमः ॐ संस्पर्शसुखानाहृताय नमः ॐ बुधाय नमः ॐ कामादिवेगसहिष्णवे नमः ॐ सुखिनय नमः ॐ अन्तःसुखाय नमः ॐ अन्तरारामाय नमः ॐ अन्तर्ज्योतिषे नमः ॐ अधिगतब्रह्मनिर्वाणाय नमः ॐ छिन्नद्वैधाय नमः ॐ यतात्मने नमः ॐ सर्वभूतहितरताय नमः ॐ विदितात्मने नमः ॐ समाधिगम्याय नमः ॐ यज्ञभोक्त्रे नमः ॐ तपोभोक्त्रे नमः सर्वलोकमहेश्वराय नमः ॐ सर्वभूतसुहृदये नमः ॐ शान्तिदाय नमः ॐ कर्मसन्यसेशंसिने नमः ॐ सन्न्यस्तसङ्कल्पाय नमः ॐ आरुरुक्षूपाय बोधकाय नमः ॐ योगारूढशमविधायने नमः ॐ योगारूढलक्षकाय नमः ॐ आत्मोद्धारबन्धुज्ञाय नमः ॐ अनात्मशत्रुशंसकाय नमः ॐ जतात्मने नमः ॐ प्रशान्ताय नमः ॐ शीतोष्णादिसमाहितात्मने नमः ॐ ज्ञानविज्ञानतृप्तात्मने नमः ॐ कूटस्थाय नमः ॐ समतोष्टाश्मकाञ्चनाय नमः ॐ सुहृदादिसमबुद्धये नमः ॐ समबुद्धिशंसिने योगस्थानविधायिने नमः ॐ एकाकिने नमः ॐ अपरिग्रहाय नमः ॐ योगासुनसुन्दर्शकाय नमः